श्रीमद्भागवत् महापुराणं दसंस्कन्धं त्रयोविंशोऽध्यायः पत्पत्न्यो वा ऊचुः मैवं विभोर्हति भवान् गजतुं निशंशं सत्यं कुरुष्व निगमं तव पादमूलं प्राप्ता वयं तुलसीदामपदावशिष्टं केशैनिवोढुमतिलङ्घ्य समस्तबन्धुन् गृह्णन्ति नो न पतय पितरौ सुतावानभ्राति बन्धुसुहिदकुत एव चान्ये तस्माद्ध्रवत्यप्रपदयो पतितात्मनाम्नो नान्या भवेद गतिरनिन्दमतद्विधेही श्रीभगवानुवाच पतियो नाभ्यसूयेरन् पितृभातृ सुतादयः लोकाश्च वो मयोपेता देवा अभ्यनुमन्वते न प्रीत्यनुरागाय ह्यङ्गसङ्गो नृणामिह तन्मनो मयि युञ्जानाम् अचिरान् मामवाप्स्यथ शीशुकुवाच इत्युक्त्वा द्विजपत्न्यस्ता यज्ञवाटं पुनर्गताः ते चानूयसूयव स्वाभिः सत्रमपारयन् तत्रैका विधृता भर्त्रा भगवन्तं यथा यदोपगुह्य विजहौ देहं कर्मानुबन्धनम् भगवानपि ते गोविन्द तेनैवान्नेन गोपकान् चतुर्विधे नाशयित्वा स्वयं च बुभुजे प्रभु एवं लीलां नरवपुर्निलोकमनुशीलयन् रे मे गो गोपगोपीनां द्रमयन् रूपवाकृतये अथानुस्मृत्यविप्रास्ते अन्वतप्यन्कृतागसः यद्विश्वेश्वर्योर्जाञ्चं चां महन्मन्विडन्दम्बयोः दृष्ट्वा स्त्रीणां भगवति कृष्णे भक्तिमलौकिकीम् आत्मानं च तयाहीनम् अनुतप्ता व्यहरिं व्यगर्हयन् धिग्जन्म नस्त्रिविद्विद्यां धिग्व्रतं धिग्बहुज्ञतां धिक्कुलं धिक्क्रिया दाक्षं विमुखायै त्वथोक्षरे नूनं भगवतो मायायोगिनामपि मोहिनी यद्वयं गुरवो नृणां स्वार्थी मुह्यामहे द्विजाः अहो पश्यत् नारीणाम् अपि कृष्णे जगद्गुरौ दुरन्तभावं यो विध्यन् मृत्युपाशान् गृहाभिधान् नासां द्विजातिसंस्कारो न ना निवासो गुरावपि न तूर्णात्ममीमांसा न शोचं न क्रियाशुभा अथापिषोत्तमश्लोके कृष्णे योगेश्वरेश्वरे भक्तिर्दृढा न चास्माकं संस्कारादिमतामपि ननु स्वार्थविमूढानां प्रमत्तानां गृहेहयाम् अहो न स्मारयामास गोपवाक्यै सतां गतिम् अन्यथा पूर्णकामस्य कैवल्याद्याशिषां पतेः एषितव्यैकमस्माभिः ईशस्यैतं विडम्बनं हित्वान्यान् भजतेऽयं श्रीपादस्पर्शाशयासकेन् आत्मदोषापुवर्गेण तद्याञ्चाजन्मोहिनी देशकालपृथक्द्रव्यं मन्त्रतन्त्रिजोऽग्नयः देवता यजमानश्च क्रतुर्धर्मस्य जन्मयः स एष भगवान् साक्षाद्विष्णुर्योगेश्वरेश्वरः जातो यदुस्मित्यशृण्मह्यपि अहो वयं भक्त्या या अस्माकं निश्चलाहरौ नमस्तुभ्यं भगवते कृष्णाया कुंठमेधसे। जन्माया मोहितधियो भ्रमावकर्मवर्त्मसु स वैन आद्य पुरुषक्षमाया मोहितात्मनाम् अविज्ञातानुभावानां चन्तुर्मर्हत्यतिग्रमम् इति स्वाघमनुस्मृत्य कृष्णे ते कृतहेलनाः दिदिग्धवोऽप्यच्युतत्वयो कंसाद्भीता न चाचलन् ते श्रीमद्भागवते महापुराणे पारंशां शयितायां दशमस्कन्धे पूर्वार्धे यज्ञपत्न्युद्धरणं नाम त्रयोविंशोऽध्यायः